गणेशपुराणं क्रीडाखण्डम् अध्यायं हण्ड्रेड् अण्ड् ट्वेन्टि सेवेन् अध गजाननचरितं द्वापरयुगम् व्यास उवाच चतुरानदेवेश गुणेशचरितं शुभं कथितं विस्तरादेवनाहं तृप्तोऽस्मि तच्छ्रुवाद सुधयादुविरक्तस्यान्न कथा श्रवणान्नरः त्रेदायुगकथा सर्वा गुणेशस्य श्रुता मया गजाननेति नामास्य द्वापरे भवद मूशको वाहनं चास्य कथं यादो महाविभो कृपया संशयममुं चिन्धित्वं कमलासन क उवाच सम्यक् त्वया वत्स मम चित्तगदं मुने यतस्रोता च वक््रा च पृच्छखसिद्धिमाप्नुयाद तां कथां कथयिष्यामि विनायककृतां मुने द्वापरे यत्कृतं तेन चरितं शृणुसाम्प्रतं यथा गजाननो देवो रक्तवर्णश्च दुर्भुजः गजाननश्चाकुवाहस्तत्सर्वं कथयामि ते कदाचिद्ब्रह्मभुवनं याधशम्भुर्यदृच्छया उत्थापयामास तदा प्रसुप्तं कमलासनं स उद्भिदो महाजृम्भाचकारक्रोधसंयुतः तदयेको महाकोरः पुरुषः समपद्यत स च शब्दं सर्वभयङ्करम् चकम्बे पृथिवीतेन साब्धि द्वीपाः स पर्वता दिक्पालाश्चकिता सर्वे शेषक्षुब्धो सृजद्विषं विशीर्णा गिरय सर्वे भूतान्याकुलदां ययुः कल्पान्त इव तत्रास्य त्रैलोक्यवासिनं नृणाम् ब्रह्माण्डं मस्तकेनासौ स्फोटयन्निव तस्तिवान् यद्देहतश्चारुगन्धो व्यानशेभुवनत्रयम् जपाकुसुमदेहस्य प्रभया दिशः अयं किं मदनो जातो द्वितीयो कामस्तु लज्जितस्तस्य सद्योरूप निरीक्षणाद् पुरस्तं सन्निरीक्ष्यैनं विस्मितः कमलासनः कस्य त्वं कुत चिकीर्षसि तद्वद पुरुष उवाच अनेकानि सुरेशत्वं ब्रह्माण्डानि सृजस्यपि विभ्रान्त इव कस्मान् मां सर्वज्ञः सन् हि पृच्छसि जम्भायास्ते समुत्पन्नं कथं मां नावबुद्ध्यसे देहि नाम यथामदि स्थानं च देहि मेनाद भक्ष्यं कार्यं च मे इत्याकर्ण्यवचस्तस्य प्रोवाच चतुरानः रक्तं वपुर्यतस्तेऽस्ति सिन्धूराख्यो भविष्यसि सामर्थ्यं च महत्ते स्यात्रैलोक्याकर्षणक्षमां क्रोधा दालिङ्गसेयं त्वं शतधा भविष्यति पञ्चभ्योऽपि च भूतेभ्यो न ते कदाचन देवदानवयक्षेभ्यो मानुषेभ्यो भयं न ते इन्द्रादिलोकपालेभ्यः कालादपि भयं न ना न ना नागेभ्यो नरक्षेभ्यो ना होरात्रे भयं न ते स जीवान्न च निर्जीवाद्भयं सिन्धुरथे भवेत् वस यत्र मनस्ते स्यात् स्थादुं त्रिभुवनेष्वपि तदस्य वरदानेन तुतोषचतुरास्य जः चक्रन्दकम्पयन् शब्दैस्त्रैलोक्यम् सचराचरं चुक्षुभोः सागर सर्वे लोकपालाश्च दुद्रुवुः उवाच स तदा देवं नमस्कृत्य पिदामहम् सिन्धूर उवाच तव वाक्यामृतेनाहम्प्रेदो ब्रह्माण्डनायक त्वमेव विश्वं सृजसि पाशि हंसि पुणैस्त्रिधा त्वयि सुप्ते जगत्सुक्तमन्धकारश्च जायते महद्भाग्यं मम विभो तपो दानव्रतैर्विणा पुत्रस्नेहात् प्रसन्नत्वं नान्यधाते प्रसन्नता कल्पकोडि तदोभिस्त्वं प्रसन्नो जायसे विभौ प उवाच युत्युक्त्वा तं प्रणम्यासौ कृत्वापि च प्रदक्षिणं जगाममनसा भूमिं मार्गे तर्कमदाकरोद करोद। नमेतपो वाध्यानं वा ध्यानं वा कथम ते न वरा दत्ता सृदा ग्वा द्रक्षादी गा पिताम तुलावादुदोर्दंडौ जगर्जस भयानक तमेवा तद चैदत्दे पितामह नेहान्मया दत्ता वर अ दुर्लभा दुष्टभा जायते पयो दतमें दुष्ट गमस्म दैतो भविष्य परमात्मावदीर्याशु हनिष्यति गजाननः तवाङ्गं सुरभिं ज्ञात्वा स्वाङ्गे तन्मर्दयिष्यति सिन्धूरारुणदेहश्च सिन्धूरप्रिय एव च भविष्यदिश देवोऽपि सिन्धूरवध भयेन कमलासनः मनोवायुमहावेगा निश्वासश्वाससङ्कुलः दैत्योऽपि पृष्ठदोयादिशापमाकर्ण्यमन्युमान् स्वदेनार्द्रं तनुर्दुष्टो दृष्ट्वा दृष्ट्वा पुरो व्रजन् पदेऽन्यस्मिन्निधि दैत्योऽभ्यधावत वैकुण्ठमगमद्ब्रह्म कम्भ मां नस्त्वरान्वितः इति श्रीगणेशपुराणे क्रीडाखण्डे